अथैको न सप्ततितमः सर्गः एवम् विलपमानस्य रावणस्य दुरात्मनः श्रुत्वा शोकाभिभूतस्य त्रिषिरा वाक्यमब्रवीत् एवमेव महावीर्यो हतो न स्तात मध्यमः न तु यथा भवान् नूनम् त्रिभुवनस्यापि पर्याप्तस्त्वमसि प्रभो स कस्मात् प्राकृत इव शोचस्यात्मानमीदृशम् ब्रह्म दत्तास्ति ते शक्तिः कवचम् सायको धनुः सहस्रखरसंयुक्तो रथो मेघसमस्वनः त्वया सकृद्धिशस्त्रेण विशस्ता देव दानवाः स सर्वायुधसम्पन्नो राघवंशास्तुमर्हसि कामम् तिष्ठ महाराज निर्गमिष्याम्यहम् रणे उद्धरिष्यामि ते शत्रून् गरुडः पन्नगानि देवराजेण नरको विष्णुना यथा तथा द्यशयिता मया युधिनिपातितः श्रुत्वा त्रिशिरसो वाक्यम् रावणो राक्षसाधिपः पुनर्जातमिवात्मानम् मन्यते कालचोदितः श्रुत्वा त्रिशिरसो वाक्यम् देवान्तकनरान्तकौ अधिकायश्च तेजस्वी बभूवुर्युद्धहर्षिताः ततोऽहमहमित्येवम् गर्जन्तो नैरृतर्षभाः रावणस्य सुता वीरा शक्रतुल्यपराक्रमाः अन्तरिक्षगताः सर्वे सर्वे मायाविशारदाः सर्वे त्रिदश दर्पघ्नाः सर्वे समरदुर्मदाः सर्वे सुबलसम्पन्नाः सर्वे विस्तीर्णकीर्तयः सर्वे समरमासाद्य न श्रूयन्ते स्म निर्जिताः देवैरपि स गन्धर्वैः सखिन्नरमहोरगैः सर्वे स्त्रविदुषो वीराः सर्वे युद्धविशारदाः सर्वे प्रवर विज्ञानाः सर्वे लब्धवरास्तथा सतैस्तथा भास्कर तुल्यवर्चसैः सुतैर्वृतः शत्रुबल राज राजा, राजा मघवान् यथा मरैर्वृतो महादानव दर्पनाशनैः सपुत्रान् सम्परिष्वज्य भूश च भूषणैः आशीर्भिश्च प्रशस्ताभिः प्रेषयामास युद्धोन्मत्तम् च मत्तम् च भ्रातरौ चापि रावणः रक्षणार्थम् कुमाराणाम् प्रेषयामास संयुगे तेऽभिवाद्य महात्मानम् रावणम् लोकरावणम् कृत्वा प्रदक्षिणम् चैव महाकाया प्रतस्थिरे सर्वौषधीभिर्गन्धैश्च समालभ्य महाबलाः निर्जग्मुर्नैरऋतश्रेष्ठाः षडे युद्धकाङ्क्षिणः त्रिशिराश्चातिकायश्च देवान्तक नरान्तकौ महोदरमहापार्श्वौ निर्जग्मुः कालचोदिताः ततः सुदर्शनम् नागम् नीलजीमोदसन्निभम् ऐरावतकुले जातमारुरोह महोदरः हयोत्तमसमायुक्तम् सर्वायुधसमाकुलम् आरुरोह रथ श्रेष्ठम् त्रिशिरारावणात्मजः त्रिशिरारथमास्थाय विरराज धनुर्धरः स विद्युदुल्कः सज्ज्वालस्येन्द्र अतिकायोति तेजस्वी राक्षसेन्द्रसुतस्तदा आरुरोह रथः श्रेष्ठम् श्रेष्ठः सर्वधनुष्मता सुचक्राक्षम् सुसंयुक्तम् स्वनुकर्षम् सुकूबरम् तूणीबाणासनैर्दीप्तम् प्रासासि सरराजरथे तस्मिन् राजसूनुर्महाबलः मृतो नैररुदशार्दूलैर्भज्रवाणिरिवामरैः हयमुच्चैः श्रवः प्रख्यम् श्वेतम् कनकभूषणम् मनोजवम् महाकायमारुरोह गृहीत्वा प्रासमुल्काभम् विरराजनरान्तकः शक्तिमादाय तेजस्वी यथा देवां समादाय परिघम्भेम भूषणम् परिगृह्य गिरिन्दोर्भ्याम् वपुर्विष्णोर्विडम्बयन् महापार्श्वो महातेजा गदामादाय वीर्यवान् विरराजगदा पाणिः कुबेर इव संयुगे ते, ते प्रतस्थुर्महात्मानो मरावत्या सुरा इव तान् गजैश्चतुरङ्गैश्च अणोत्मेमांहा राक्ष प्रवरायु तेरेजुर्महा वर्चस किटनश्रिया जुष्टा ग्रहादीता इवांबरे प्रगृता बभू तुषा शिता शरदभ्र प्रतीकाशा हंसा बलिवां मरण वापिशत्रूण पराजय इति कृत्वा मतिम् वीराः सञ्जग्मुः संयुगार्थिनः जगर्जुश्च प्रणेदुश्च चिक्षिपुश्चापि सायकान् जगृहुश्च महात्मानो निर्यान्तो युद्धदुर्मदाः क्ष्वेणिता स्फोटितानाम् वै सञ्चचालेव मेदिनी रक्षसाम् सिंहनादैश्च ददृ शर्वाणराणीकम् समुद्यत शिलानगम् हरयोऽपि महात्मानो ददृशूराक्षसम् बलम् हस्त्यश्वरथ सम्बाधम् किङ्किणीशतनादितम् नीलजीमूत सङ्काशम् समुद्यत महायुधम् दीप्ता समुद्यत महाशैलाः सम्प्रणेदुर्मुहुर्मुहुः अमृष्यमाणा रक्षांसि प्रति नर्दन्त वा नराः ततः समुत्कृष्टरवम् निशम्य रक्षो गणा वा नरयूथपाना अमृष्यमाणाः परहर्षमुग्रम् महाबला भीमतरम् प्रणेदुः ते राक्षस बलम् घोरम् प्रविश्य हरियूथपाः विचेरुरुद्यतैः शैलैर्नगाः शिखरिणो यथा केचिदाकाशमाविश्य केचिदुर्व्याम् प्लवङ्गमाः रक्षः सैन्येषु सङ्क्रुद्धाः केचिद्रुमशिलायुधाः द्रुमांश्च विपुलः स्कन्धान् गृह्य वानरपुङ्गवाः तद्युद्धमभवद्घोरम् रक्षो वानरसङ्कुलम् ते पादपशिलाशैलैश्चक्रुर्वृष्टिमनुपमा बाणौघैर्वार्यमाणाश्च हरयो भीमविक्रमाः सिंहनादान् विने दुश्चरणे राक्षसवानराः शिलाभिश्चूर्णयामासुर्यातुधानान् प्लवङ्गमाः निर्जघ्नुः क्रुद्धा कवचाभरणावृतान् केचिद्रथगतान् वीरान् गजवाजिगतानपि निर्जघ्नुः प्लवङ्गमाः शैलशृङ्गान्विताङ्गास्ते मुष्टिभिर्वान्तलोचनाः चेलुः पेतुश्च नेदुश्च तत्र राक्षसपुङ्गवाः राक्षसाश्च शरैस्तीक्ष्णैर्बिभिदुः कपिकुञ्जरान् शूलमुद्गरखड्गैश्च जघ्रः प्रासैश्च शक्तिभिः अन्योन्यम् पातयामासुः परस्पर जयैषिणः रिपुशोणितदिग्धाङ्गास्तत्र वानर राक्षसाः ततः शैलैश्च खड्गैश्च विसृष्टैर्हरिराक्षसैः मुहूर्तेनावृता भूमिरभवच्छोणितोऽक्षिता विकीर्णैः पर्वताकारैरक्षोभिरभिमर्दितैः आसीद्वसुमतीपूर्णा तदा युद्धमदान्वितैः आक्षिप्ताः क्षिप्यमाणाश्च भग्नशैलाश्च वानराः पुनरङ्गैस्तदा चक्रुरासन्ना युद्धमद्भुतम् वानरान् वानरैरेव जघ्नस्तेनैरऋतृषभाः राक्षसान् राक्षसैरेव वा जघ्नस्ते वानरा अपि आक्षिप्य च शिलाः शैलान् जघनुस्ते राक्षसास्तदा तेषाम् चाच्छिद्यशस्त्राणि जग्नू रक्षांसि वानराः निर्जघ्नुः शैलशृङ्गैश्च विभिधुश्च परस्परम् सिंहनादान् विनेदुश्च राक्षसवानराः छिन्नवर्मतनुत्राणा राक्षसा वानरैर्हताः रुधिरम् प्रसृतास्तत्र रससारमिव द्रुमाः रथेन च रथम् चापि वारणेनापि वारणम् हयेन च हयम् केचिन्निर्जघ्नुर्वानरारणे क्षुरप्रैरर्धचन्द्रैश्च भल्लैश्च निशितैः शरैः राक्षसावानरेन्द्राणाम् विकीर्णाः पर्वतास्तैश्च द्रुमच्छिन्नैश्च संयुगे हतैश्च कपि रक्षोभिर्दुर्गमा वसुधा भवत् देवानरागर्भितहृष्ट चेष्टाः सङ्ग्राममासाद्य भयम् विमुच्य युद्धम् स्व सर्वे सह राक्षसैस्ते तस्मिन् प्रवृत्ते तु मुले विमर्दे प्रहृष्यमाणेषु बलीमुखेषु निपात्यमानेषु च राक्षसेषु महर्षयो देवगणाश्च मेदुः ततो हयम् मारुततुल्यवेगमारुह्य शक्तिम् निशिताम् प्रगृह्य नरान्तको वानरसैन्यमुग्रम् महान्नवमीन इवा विवेश स वानरान् एकः क्षणेनेन्द्र रिपुर्महात्मा जघानसैन्यम् हरिपुङ्गवानाम् ददृशुश्च महात्मानम् भयपृष्ठप्रतिष्ठितम् चरन्तम् हरिसैन्येषु विद्याधरमहर्षयः स तस्य ददृशे मार्गो मां सशोणितकर्दमः पतितैः पर्वताकारैर्वानरैरभिसंवृतः यावद्विक्रमितुम् बुद्धिम् तावदेतादतिक्रम्य निर्विभेद नरान्तकः ज्वलन्तम् प्रासमुद्यम्य सङ्ग्रामाग्रे नरान्तकः ददाह हरिसैन्यानि बलानि विभावसुः यावदुत्पाटयामासुर्वृक्षान् चैलान् वनौकसः तावत्प्रासहताः पेतुर्वज्रकृता इवाचलाः दिक्षु सर्वासु बलवान् विचचार नरान्तकः प्रमृद्गन् सर्वतो युद्धे प्रावृट्काले यथा निलः नशे कुर्धावितुम् वीरा न स्थातुम् स्पन्दितुम् भयात् उत्पतन्तम् वीर्यवान। यान्तम् सर्वान् विव्याधवीर्यवान् एकेनान्तकल्पेन प्रासेनादित्यतेजसा भग्नानि हरिसैन्यानि निपेतुर्धरणीतले वज्रनिष्पेषसदृशम् प्रासस्याभिनिपातनम् नशे कुर्वानराः सोढुम् ते विने दुर्महास्वनम् पतताम् हरिवीराणाम् रूपाणि प्रचकाशिरे वज्रभिन्नाग्रकूटानाम् शैलानाम् पततामिवा। ये तु पूर्वम् महात्मानः कुम्भकर्णेन पातिताः ते स्वस्था वानरः सुग्रीवमुपतस्थिरे प्रेक्षमाणः सुग्रीवो ददृशे हरिवाहिनी नरान्तकभयत्रस्ताम् विद्रवन्तीम् यतस्ततः विद्रुताम् वाहिनीम् दृष्ट्वा सददर्श नरान्तकम् गृहीतप्रासमायान्तम् भयपृष्ठप्रतिष्ठितम् दृष्ट्वा उवाच महातेजः सुग्रीवो वा नराधिपः कुमारमङ्गदम् वीरम् शक्रतुल्यपराक्रमम् गच्छैनम् तुरगमास्थितः क्षोभयम् हरिबलं क्षिप्रं क्षिप्रम् प्राणैर्वियोजय सभर्तुर्वचनम् श्रुत्वा निष्पाताङ्गदस्तदा अनीकान्मेघसङ्काशादंशुमानिव वीर्यवान् शैलसङ्घातसङ्काशो हरीणामुत्तमोऽङ्गदः रराजाङ्गदसन्नद्धः स धातुरिव पर्वतः निरायुधो महातेजाः केवलम् न नरान्तकमभिक्रम्य वालिपुत्रोऽब्रवीद्वचः तिष्ठ किम् प्राकृतैरेभिर्हरिभिस्त्वम् करिष्यसि अस्मिन् वज्रसमस्पर्शम् प्रासम् क्षिपमोरसि अङ्गदस्य वच श्रुत्वा प्रचुक्रोध नरान्तकः सन्दश्यदश नैरोष्ठम् स प्रासमाविध्य तदाङ्गदाय समुज्ज्वलन्तम् सहसोत्ससर्ज स वज्रकल्पे बभूव भग्नोऽन्यपतच्च भूमौ तम् प्रासमालोक्य तदा विभग्नम् सुपर्ण निमग्नपादस्फुटिता क्षितारो निष्क्रान्त जिह्वाचल सन्निकाशः स तस्य वाजी निपपात भूमौ अथांगदो मुष्टिविशीर्ण मूर्धा सुस्रावतीव्रम् व्रमृधिरं पृषोष्णम् मुहुर्विजज्वालमुमोह चापि सञ्ज्ञाम् समासाद्य विसिस्मिये च अथाङ्गदो मृत्युसमानवेगम् संवर्त्य मुष्टिम् गिरिशृङ्गकल्पम् निपातयामास तदा महात्मा नरान्तकस्योरसि समुष्टि निर्भिन्न निमग्नवक्षा ज्वालावमञ्छोणित दिग्धगात्रः नरान्तको भूमितले पपात यथा चलो वज्रनिपात भग्नः तदान्तरिक्षे त्रिदशोत्तमानाम् वनौकसाञ्चैव महाप्रणादः बभूव तस्मिन्निहते ग्र्यवीर्ये नरान्त के वालिसुतेन सङ्ख्ये अथाङ्गदो राम मनः प्रहर्षणम् सुदुष्करम् तम् कृतवान् निविक्रमम् विसिस्मिये सोऽप्यथ भीम कर्म पुनश्च युद्धे स हर्षितः इत्यार्षे श्रीमद् वाल्मीकिये आदिकाव्ये युद्धकाण्डे एकोन सप्ततितमः सर्गः